श्री गुरु नक्षत्र श्रीगुरुनक्षत्रसुक्तम् ॐ श्रीगुरुभ्यो नमः हरिः ॐ अग्निर्न पातु कृत्तिकाः नक्षत्रं देवमिन्द्रियम् इदमासां विचक्षणम् अविरासं जुहोतन यस्य रस्मयो यस्य केतवः यस्ये मां सर्वाः भुवनानि सर्वा आ स प्रत्यकाभिरभिसम्बशालः अग्निर्नो देवश्रुविते दधातु वेतुपत्ने ए विश्वरूपाभिहृते चत्रभानुः शानो यज्ञस्य सुविते दधातु यथा जीवेम शरदः स वीराः रोहिणीदेव्यदगात् पुरस्तात् विश्वारूपाणि प्रतिमोदमानां प्रजापतिगम्भविषां वर्धयन्ति प्रिया देवानामुपयाति यज्ञं सोमो रजा मृगशीर्षेण आगन्ना शिवं नक्षत्रं प्रियमस्य धाम आप्यायमानो बहुधा जनेषु रेतप्रजां यजमाने दधातु यत्ते नक्षत्रं मृगशिरसमस्ति प्रियगं राजन्प्रियतमं प्रियाणा आं तस्मै ते सोमः विषा विधेम तन्न एधिद्विपदेशं चतुष्पदे आर्द्रया रुद्र प्रम प्रथमा न एति श्रेष्ठो देवानां पतिरग्न्याना आम् नक्षत्रमस्य हविषा विधेमा मानः प्रजागम्भीरिसन्मोतवीरान् एते रुद्रस्य परिणो विनक्तो आर्दानक्षत्रं प्रमुञ्चमानो दुरितानि विश्वा अपाघसघं सन्नो दतां दतामरातिं पुनर्नो देव्यदिति स्पृणोतु पुनर्वशुना पुनरेता आं यज्ञं पुनर्नो देवा अभियन्तु सर्वे ए पुनः पुनर्वोहविसा एवानां दिव्यं दितिरनर्वा विश्वस्य भरति जगतः प्रतिष्ठा पुनर्वशुभविषा वर्धयन्ति प्रियं देवानामप्येतुपाथः बृहस्पतिप्रथमं जायमानः त्रिशं नक्षत्रमभिशम्बभूव श्रेष्ठो देवानां पृजना सुजिष्णो दिशो नु अभयन्नो अस्तु दिश्य पुरस्तादृतमध्यतो नः बृहत्पतिर्न परिपातु पश्चान् बाधेतां देशोऽभयं कृणुतां सुवीर्यस्य पतयस्याम यदुगं सरपेभ्यो हविरस्तु जुष्टम् अश्रेयसा ये सा मनुयन्ति चेतह ये अन्तरिक्षं प्रथमीं वीक्ष्यन्ति तेन सर्पसां तर्पासोहमागं मिष्ठाः ये रोचने सूर्यस्यापि सर्पाः ये दिवं देवी मनुसञ्चरन्ति एषा माश्रे सा अनुयन्ति कामं तेभ्यः सर्पेभ्यो मधुमज्जुहोमी उपहूता पितरो ये मघाशो मनोजवसस्कृतस्तुकृत्याः तेणो नक्षत्रे हवमागमिष्ठाः स्वधाभिर्यज्ञं प्रयतं जुसन्ताम् ये अग्निदग्धा येन्नग्निदग्धाः ये मुल्लोकं पितरः क्षियन्ते यागश्च विद्यं विद्म यागम् ऊचन्न प्रविद्म मघाशो यज्ञगं सुकृतं जुसन्तां गवां पते फलगुणीनामसि त्वं तदर्दयमन्वरुणमित्रचारु तं त्वावयगं स नितारगं स नीनां जीवाजीवन्तमुपसविषेम येनेमाविश्वा भुवनानि सञ्जितां यस्य देवा अनुसंयन्ति चेतः अर्य महाराजा जरस्तु विस्मान् फल्गो श्रेष्ठो देवाना आं भगवो भगासि तत्त्वाविदु फल्गुनीस्तस्यापि दत्ता अस्मभ्यं छत्रमजरगं सुवीर्यं गोमलस्वं वधूपसन्नो देह भगो हाता भगप्रदाता भगो देवी फल्गुनीराविवेश भगस्तेत्तं प्रशव भगं गमेवा यत्र देवैः सन्धमादं आयातु देव सवितोपयातु हिरण्ययेन सुवितारथेन वहन्हस्तकं शुभगं विद्यनापसं प्रयच्छन्तं पपुरीं पुण्यमच्छ हस्तप्रयच्छतमृतं दक्षिणेन प्रतिगिह्णीम एनत दातारमद्य सविताभिधेय यो नो हस्ताय प्रसुवाति यज्ञं त्वष्टानक्षत्रमभ्येति चित्रां सुभगं संसयूवतिगं राचमानां दिवेशयन्नामृतान्मर्त्यांश्च रूपाणि भुवनानि विश्वा तन्नस्ता तलचित्रा विचष्टा <coughs> तन्नक्षत्रं भुरिदा अस्तु मह्यं तन्न प्रधां वीरवतीगं शनोतु गोभिर्नोऽश्वै समनक्तु यज्ञं वायुर्नक्षत्रमभ्येतनिष्ठा आम् सिग्मशृङ्गो वृषभोरोरुवाणः समीरयन्भुवनामातरि स्वाहा अपद्विसागंसीर्नतामराति तन्नो वायुस्तदु निष्ठ्याशृणोतु तन्नक्षत्रं भूरिदा अस्तु मह्यम् तन्नो देवासोऽनुजानन्तु कामम् यथा तरे मा दुरितानि विश्वा आ दूरमस्मच्छत्रवो यन्तु भीता तन्नो देवा अनुमदन्तु यज्ञं पश्चात्पुरस्तादभयन्नो अस्तु नक्षत्राणाम् अधिपत्नि विखाखे। त्रेष्ठाविन्द्राग्निर्भुवनस्य गोपौ विसूचत्रू न पवं बाधमानौ अपछुदन्नो दतां मरातिम पुर्णा पश्चाद्युतपुर्णा पुरस्ता आत उन्मध्यतप ओर्णमासे जिगाय तस्या आं देवा अधिशं वसन्तः उत्तमेनाकहमादयन्तां पित्वे सुवर्षा युवती सजोषा आह पौर्णमास्यो दवाच्छोभमाना आवप् उरोदुहां यजमाना विद्ध्या स्म हव्यै नमसोपसद्य मित्रं देवं मित्रधेयं नो अस्तु अनुराधान् हविषा वर्धयन्तः स तं जीवेम सरदसीराः चित्रं पुरस्ता आत् अनुराधास स इति यद्वदन्ते तन्वित्रयेति पतिभिर्देवयालयेह निरन्ययै विततैरन्तरिक्षे इन्द्रो ओ ज्येष्ठमुं ज्येष्ठामनुरक्षत्रमेति यस्मिन् वृत्रं वृत्ततुर्येत तार तस्मिन् वयं अमृतं दुहानाः चिरन्तरे माधुरितिं पुरन्दराय वृषभाय वैष्णवे ए अषाढाय सहमानाय मेढुषे ए इन्द्राय देशा मधुमद्दुहानां उरुं तृणोतु लोकं मूलं प्रजां विरवतिं बिदेया परा आचेतो नृति गोभिर्नक्षत्रं पशुभि समर्तम् अह भूयाद् यजमालाय मय्यम् अहर्नो अद्य सुविते दधातु नक्षत्रमिति यद्वदन्ते पराचिं वाच नृतिं नुदामि शिवं प्रजायै शिवमस्तु मय्यम् या दिव्या या अन्तरिक्ष उत पार्सिवीर्याः या सा मषाढा अनुयन्ति कामं ता न आपसज्ञस्यो ना भवन्तु याश्च कोप्या याश्च नाद्या आ याश्च वेसन्ति ऋतप्रासचर्याः या शामषाढा मधुभक्षयन्ते ता न आपसज्ञस्यो ना भवन्तु तन्नो वेष्टे उपशृणन्तु देवाः तदशाढा तन्नक्षत्रं प्रसतां पशुभ्यः किसर्वेष्टे यजमानाय कल्पताम् शुभ्रा कन्या युवतश्च सु कर्म कृतः सुकृतो वैर्यावतिः विश्वानदेवान् अविषावथयन्ति अषाढा काममुपयान्तु यज्ञं यस्मिन् ब्रह्माभ्यजयः सर्वमेतत् अमुञ्च लोकमिदमुं च सर्वम् तन्नो नक्षत्रमभिजिद्विजित्य श्रियं दधात्वभिणीयमानम् उभौ लोको ब्रह्मणा सञ्जितेभौ तन्नो नक्षत्रमभिजेद्विचष्टां यस्मिन्वयं प्रीतना सज्जयेम तन्नो देवासु अनुजानन्तु कामं शर्वन्ति षोडां अमृतस्य गोपाम् पुण्यामस्या उपशृणोमि वाचुम् महिम् देवीं विष्णुपत्नी यजुर्याम प्रतीची मे नागम् तेधा विष्णुरुगायो विचक्रमे महिम् दिवम् पृथिवीमन्तरिक्षम् तत्सूत्रेण तिस्रव इक्षमाणा पुण्यग्म् श्लोक यजमानाय अष्टौ देवावसवस्योऽभ्यासः चतस्रो देवि रजराः स्रविष्ठाः ते यज्ञं पान्तु रजस पुरस्ता आत संवशरिणं मम मम मम स्वस्ति यज्ञं न पान्तु वसव दक्षिणतोभियन्तोश्रविष्ठा पुण्यनक्षत्रमभि संविषाम मानो अराते जगसगं सा गन्ध क्षत्रस्य राजा वर्णोऽधिराजः नक्षत्राणागं शतभि सद्वसिष्ठदेवेभ्यः कृणुतो दीर्घमायो शतकं सहस्राभेशजाने दत्त यज्जन्यो राजा वरुण उपयातो तन्नो विश्वे अभिसंयन्तु देवाः तन्नो नक्षत्रकं सदभिसञ्जुषाणां दीर्घमायो प्रतिरद्भे स जाने अज एकपादो दवात् पुरस्तात् विश्वाभूतानि प्रतिमोदयमान तस्य देवा प्रथमं यान्ति सर्वे ए प्रोष्ठपदासो अमृतस्य गोपाः विभ्राजमानसमिधान उग्रः आन्तरिक्षमरुह जगन्त्यां तव सूर्यं ते प्रोषपदासो अनुयन्ति सर्वे ए अहिर्बुद्ध्य प्रथमा न एते श्रेष्ठो देवानां तु मानुषाणां तम्रां हरस्यो मपास्यो श्याश प्रोष्टपदासो अभिरक्षन्ति सर्वे एकम अभिकर्म एकमभिकर्मदेवाः पोष्ठपदा स इति यानं वदन्ति ते बुद्धियं परिसद्यगं सुवन्तः ऐगं रक्षन्ति नमसोपसद्य पूषा देवत्यनेति पथा आब पुष्टिपते पचुपा वाजवश्च इमानि हव्या प्रया प्रयताजुषाढा सुगैर्नो जनैरुपयातां यज्ञं क्षुद्रान् पसं रक्षतु रेवती नः गावो नु अश्वगम् अन्वेतु पूषा अन्नगं रक्षन्तौ बहुधा विरूपं वा यज्ञं स्मृता यजमानाय यज्ञं तदस्विनावश्वयुजोपयातां शुभङ्गमिष्टौ सुयमेभिरस्वैय त्वं नक्षत्रगम्भविषा यजन्तौ मध्वा सम्पृक्तौ यजुषसमक्तौ यौ देवाना आं विसृजौ ओहव्यवाहौ गोपौ तौ नक्षत्रं जुषुषाणोपयातां नमोऽस्विभ्या आं अप अपपाप्मानं भरणिर्भरन्तु तद्यमो राजा भगवान् विचष्टां लोकस्य राजा महतो महान् हि सुगं न पन्था अभयं कृणोतु यस्मिन्नक्षत्रे यम एति राजा आं यस्मिन्नेन अर्भ्यसि चन्तदेवाः तदस्य चित्रगम् हविषा आपपाप्मान्नम्भरनिर्भरन्तो निवेशनि सङ्गमनि वचूनां विश्वा रूपाणि वशो ओण्यावेशयन्ति सहस्रपोषकं शुभगालरान् सा न आगन्वर्चसा संविदानां यत्तेवा अदधुर्भागधेया ममावास्ये संवसन्तो महित्वा शालो यज्ञं प्रपि विश्वपावारे रैणोधे हि सुभगे सुवीरम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु